अथाष्टाचत्वारिंशः सर्गः तेषामेवम्विषण्णानाम् पीडितानामतीव च बाष्पविप्लुतनेत्राणाम् सशोकानाम् मूर्छया अभिगम्य निवृत्तानाम् रामम् नगरवासिनाम् उद्गतानीव सत्वारि बभुवुरमनस्विनाम् स्वम् स्वम् निलयमागम्य पुत्रकारैः समावृताः अश्रूणिमुचः सर्वे बाष्पेणपि हिताननाः नचा चाहृष्यन् नचा मोदन वणिजो न प्रसारयन् न ना चाशोभन्तपण्यानि नापचम् गृहमेधिनः नष्टम् ना दृष्ट्वा नाभ्यनन्दन् विपुलम् वाधनागमम् पुत्रम् प्रथमजम् लब्ध्वा जननी गृहे गृहे रुदत्यश्च भर्तारम् गृहमागतम् जगर्हयन्त दुःखार्ता वाग्भिः स्तोत्रैरिवद्विपान् किम् नु तेषाम् गृहैः कार्यम् किन्दारैः किन्धनेन वा पुत्रैर्वापि सुखैर्वापि येन पश्यन्ति राघवम् एकः सत्पुरुषो लोके लक्ष्मणः सह सीतया योऽनुगच्छति काकुत्स्थम् रामम् परिचरन्मने आपगाः कृतपुण्यास्ताः पद्मिन्यश्च सरांसि च येषु यास्यति काकुत्स्थो विगाह्यसलिलम् शुचि शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः आपगाश्च महानूपाः पर्वताः काननम् वापि वा यम् रामोऽनुगमिष्यति प्रियातिथिमिव प्राप्तम् नैनम् शक्ष्यन्त्यनर्चितुम् विचित्रकुसुमापीडा बहुमञ्जरीधारिणः राघवम् दर्शयिष्यन्ति नगाभ्रमरशालिणः अकाले चापि मुख्यानि पुष्पाणि च फलानि च दर्शयिष्यन्त्यनुक्रोशात् गिरयो राममागतम् प्रस्रविष्यन्ति तोयानि विमलानि महीधराः विदर्शयन्तो विविधान् भूयश्चरित्रांश्च निर्झरान् पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् यत्र रामो भयम् तत्र पराभवः स पुत्रो दशरथस्य च पुरा भवति नो दूरादनुगच्छाम राघवम् पादच्छाया सुखम् महात्मनः स हिनाथो वयम् परिचरिष्यामः सीताम् यूयम् च राघवम् इति पौरस्त्रियो भर्तॄन् दुःखार्तास्तत्तदब्रुवन् युष्माकम् राघवोरण्ये योगक्षेमम् विधास्यति सीता नारीजनस्यास्य योगक्षेमम् करिष्यति कोन्वनेनाप्रतीतेन सोत्कण्ठितजनेन च सम्प्रीयेतमनोज्ञेन वासेन हृतचेतसा यायद कैकेय्यायेद्राज्य सैदर्म्यमनाथव नि नो जीवीतेनाथ कुत्र कुमार पुत्र भर्ता वैश्व्य कारणा कंसा हेद कैकेयकुंसनी कैकेय्याज्ये भृतका हिवसेसेमह जीवंतिया जातु जीवंत्य पुत्रैर शमहे या पुत्रम् पार्थिवेन्द्रस्य प्रवासयति निर्घृणा कस्ताम् प्राप्य सुखम् जीवेदधर्म्याम् दुष्टचारिणीम् उपद्रुतमिदम् सर्वमनालम्भमनायकम् कैकेय्यास्तु कृते सर्वम् विनाशमुपयास्यति नहि प्रव्रजते रामे जीविष्यति महीपतिः वृते दशरथे व्यक्तम् विलोपस्तदनन्तरम् ते विषम् पिबतालोऽड्यक्षीणपुण्याः सुदुःताः राघवम् वानुगच्छध्वमश्रुतिम् वापि गच्छत मिथ्या प्रव्राजितो रामः स भरते सन्निबद्धा स्मः सौनिके पशवो यथा पूर्णचन्द्राननश्यामो गूढजत्रुरलिन्दमः आजानुबाहुः रामो लक्ष्मणपूर्वजः पूर्वाभिभाषी मधुरः सत्यवादी महाबलः सौम्यश्च सर्वलोकस्य चन्द्रमत्प्रियदर्शनः नूनम् पुरुषशार्दूलो मत्तमातङ्गविक्रमः शोभयिष्यत्यरण्यानि विचरन् तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः शुक्रुशुर्दुःखसन्तप्ता लपीना स्त्रीण वेश्मुराघव जगामास्तंति नकनी चाभ्यवर्त नष्ट सन्ताध्याय सत्था किलिप्ते तदा सा नगरी बभ उपाविप्या नष्ट निराश्रया अयोध्या चासीबर तदा स्त्रियो रामनिमित्तमातुरा यथा सुते भ्रातरि विवासिते विलप्य दीनारुदुर्विचेतसः सुतैर्हितासामधिकोऽपि सोऽभवत् प्रशान्त गीतोत्सव नृत्यवादना विभ्रष्टहर्षा पिहितापणोदया तदा ह्ययोऽध्यानगरी बभूव यथा शे श्रीमद् रे वाक्यकांडे अष्ट सर्ग